गणेशपुराणं क्रीडाखण्डम् अध्यायं 154 एण्ड् फ़िफ़्टि फोर् ऋषय ऊचुः किं सोमकान्तेन विमानवर्तिनानख तद्वयं श्रोतुमिच्छामो वद सर्वमशेषतः सुत उवाच ग्योम पृष्ठा दूधा महात्म वाराणसी स्थिता गणेशा नामानि ना परिरा नाम शुणुद नखा राजच दूधावदन्तु कृपया विश्वेष परिवारगान् गणेशान् मम कास्म्येन स्मरणात् सर्वसिद्धिदान् दूधावूचुः कथयामः समासेन विश्वेशावरणे गतान् गणेशान् क्रमशो राजन् शृणु सर्वभयापहान् दुर्गविनायको धार्क भीमचण्डीविनायकः देहलीगणपश्चाध तथोद्दण्डविनायकः पाशपाणि सर्वविघ्नहरणोध विनायकः सर्व प्रथमावरणे सिद्धसिद्धिरूपो विनायकः लम्भोदरकूडदन्दस्यूलटङ्गविनायकः कूष्माण्डाख्यश्चतुर्धश्च पञ्चमो मुण्डसंज्ञकः विकटद्विजसंज्ञस्तु राजपुत्रविनायकः प्रणवाक्योऽधापरश्च द्वितीया वरणे स्थिताः वक्रतुण्डयेकदन्तत्रिमुखश्च विनायकः पञ्चास्यश्चापरश्चात्र हेरम्भश्च विनायकः मोदकप्रिय इत्येव तृतीया विनायको भयप्रथः सिंहतुण्डविनायकः कुणिताक्षश्चापरश्च क्षिप्रसादसंज्ञकः चिन्तामणिरिधिख्यादो दन्तहस्तविनायकः प्रचण्डश्चाप्यपरश्चोद्दण्डमुण्डविनायकौ चतुर्थावरणे ज्ञेया अष्टावेदे विनायक स्थूलदन्तोद्वितीयस्तु द्वि चतुर्दन्तोद्वितुण्डाख्यो ज्येष्ठो गजविनायकः कालाख्यश्च तथा ज्ञेयो मार्गे शालयो परोऽपि च पञ्चमावरणे ज्ञेया अष्टावेदे विनायकाः मणिकर्णिविनायक आशासृष्टिविनायकः यक्षाख्यो सुमङ्गलश्च मित्राख्य यदे षष्ठे विनायकाः मोदप्रमोदसुमुखो दुर्मुखश्च विनायकः गणपाख्योद्धापरश्च तथा ज्ञानविनायकः सप्तमावरणे ज्ञेय तथा द्वारविनायकाः अविमुक्तोमो यत्र मोक्षदोधविनायकः अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः कपर्दीधिपरोज्ञे यस्तथा बिन्दुविनायकः एतेषां स्मरणं नित्यं सर्वकामफलप्रदम् प्रादरुद्धाय यश्चैतान् पठदे शुद्धमानसः नतस्य तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु ये कैकनाम्ना राजेन्द्र दूर्वाभिस्तन्तुलैरपि तिलैः शमीदलैश्चैतान् पूजयेद्भक्तिमान्नरः असाध्यं साधयेत् कार्यं सर्वत्र विजयीभवेद् आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धनमुत्तमम् इदं ते कथितं सर्वं यद्धि पृष्ठं त्वया नृप तूष्णीं ययुर्देवदूतास्तदो धाम निजं मुदा उवाच इदं तत्कथितं विप्रा विश्वेशावरणं मया इदानीं कथयिष्यामि पुराणस्य फलश्रुतिम् इति श्रीगणेशपुराणे क्रीडाखण्डे षट् पञ्चाशद्विनायकवर्णनं नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ओम्